सदञ्चितमुदञ्चितनिकुञ्चितपदं झलं चलितमञ्जुकटकम् पतञ्जलितृगञ्जनमनं जनमचञ्चलपदं जननभञ्जनकरं कदम्बरुचिमं बरबसं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितं विरिञ्चि सुरसं गतिपुरन्तरविचिन्तितपदं तरुणचन्द्रमकुटं परं पदविखण्डितयमं भसितमण्डिततनुं मदनवञ्चनपरं चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदं वरनटं हृदि भज भवन्तमखिलं जगदभङ्गगुणतुङ्ग मम तं धृतविधुं सुरसरी तरङ्गनिकुरुम्बृतिलं पटजटं शमनटं भसुहरं भवगरं शिवं दशदिगन्तरविटुम्भितकरं करलसान्दृगशिशुं पशुपतिं हरं सशिधनं जयपतङ्गनयनं परचिदम्बरनटं हृदि अनन्तनवरत्नविलसत्कटक किङ्किणि झलं झलझलं झलरवं मुकुन्दविधिहस्तगतमातुलयद्वन्धि मेधिमितनर्तनपदं शकुन्तरथ बर्हिरथ नन्दिमुखभृङ्गिरिटि सङ्घनिकटं भयहरम् सनन्तसनकप्रमुखवन्दितपदं परचितं वरनटं कृति भज ृतशवन्द्यचरणं मुनिहृतन्तर वसन्तमलं कबन्धवियदिन्दवनिगन्धवन्निमखबन्धुरविमञ्जुवपुषम् अनन्तविभवं त्रिजगदन्तरमणिं त्रिनयनं त्रिपुरखण्डनपरं सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं कृति भज चिन्त्यमणि वृन्दरुचिबन्धुरगडं कुरितकुन्दनि कुरुम् मुकुन्द सुरबृन्द बलहन्त कृतवन्दन लसन्तमहिकुण्डलधरम् अकम्पमनुकम्पितरतिं पशुपतिं धनञ्जयनुतं ं सुरवरं पुरकरं पशुपतिं जनितदन्तिं सुमसं हिमरुचिं असङ्गमनसं चलधि जन्मगरलं कबलयन्तमकुलं गुणनिधिं सनन्दवरदं शमितमिन्दुवदनं परचितं वदनटं हृदि अजं क्षितिरथं भुजङ्गपुङ्गवगुणं कनकशृङ्गिधनुषं करलस पुरङ्गपृथुटङ्कपरशुं रुचिरगुं कुमरुचिं दमरुकं च दधतं मुकुन्दभिषिकं नमदबन्ध्यफलतं निगमवृन्द तुरगं निरुपमं सचण्डिकममुं झटिति संहृतपुरं परचितं वरनटं अनङ्कपरिपन्थिनमजं क्षितिधुरन्धरमलं करुणयन्तमखिलं ज्वलन्तमनलं दसतमन्तकरितुं सततमिन्द्र सुरवन्दितपदं पुदं च दरविन्दकुलबन्धुशतबिम्बरुचिसंहति सुगन्धिवपुषं पतञ्जलिनुतं प्रणवपाजरशुकं परचिदम्बरनटं कृ इति स्तव ममुं भुजगपुङ्गव कृतं प्रतिदिनं पठति यः कृतमुख सदः सुललितं चरणशृङ्गरहितं सरःप्रभव सम्भव हरिपतिहरिप्रमुख दिवजनुतशङ्करपदं परमदुःखजनकं तु